अथ मूर्धादिपादान्तं दशाङ्गन्यासोऽद्वितीयः शिवाय नमः ॐ मूर्ध्ने नमः नं नासिकायै नमः मों ललाटाय नमः फं मुखाय नमः गं कण्ठाय नमः वं हृदयाय नमः तेम् दक्षिणहस्ताय नमः रुम्वामहस्ताय नमः द्राम्नाभ्यै नमः यम् पादाभ्याम् नमः अथ पादादिमूर्धान्दम् पञ्चाङ्गण्यासस्तृतीयः शिवाय नमः सद्यो जातम् प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवे नाति भवे भव स्वाम् भवोद्भवाय नमः पादाभ्या नमः वामदेवाय नमो ज्येष्ठाय नमः नमो रुद्राय न माय नमःकलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ऊरुमध्यमाभ्यां नमः अघोरेःभ्योऽथोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः कृदयाय नमः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् मुखाय नमः ईशाणः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिः ब्रह्मा शिवो मे सदाशिवो हंस नमः अस्य श्रीहंसगायत्रीस्तोत्रमहामन्त्रस्य अव्यक्त अव्यक्तगायत्री छन्दः परमहंसो देवता हंसाम् बीजम् हंसीम् शक्तिः हंसूम् कीलकम् परमहंसः प्रसादसिद्ध्यर्थे जपे विनियोगः हंसाम् अङ्गुष्टाभ्याम् नमः हंसीम् तर्जनीभ्यान्नमः हंसोम् मध्यमाभ्यान्नमः हंसैम् अनामिकाभ्या नमः हंसोम् कनिष्ठिकाभ्यान्नमः हंसः करतलकरपृष्ठाभ्यान्नमः हंसाम् हृदयाय नमः हंसीम् शिरसे स्वाहा हंसों शिखायै वषटे हंसैं कवचाय हुं हंसौं नेत्रत्रयाय वौषटे हंसः अस्त्राय भटे भूर्भुवः सुवरोमिति दिग्बन्धः ध्यानम् गमागमस्थम् गमणादिशून्यम् तिमिरापहारम् पश्यामितं तम् सर्वजनान्तरस्थम् नमामि हंसम् परमात्मरूपम् देहो देवालयः प्रोक्तः जीवो देवः सनातनः सोहं सोऽहम्भावेन पूजयेत। हंसहंसाः परमहंसः हमसा सोऽहं हंसः हमस हमसय विमहे पर धीमह तोहस प्रचोदया हमस हमसय विमहे हमसय धीमह तोहस प्रचोदया हमस हमसये परम हमसय धीमह तो हमस प्रचोदया हंस हंसेतियोऽब्रूयाद्धंसो